श्रीहरये नमः अथ पञ्चदशोऽध्यायः मैत्रेय उवाच अथ तस्य पुनर्विप्रैरपुत्रस्य महीपतेः बाहुभ्या मद्यमानाभ्यां मिथुनं समभद्यत तदृष्ट्वा मिथुनं जातं ऋषयो ब्रह्मवादिनः ऊचुः परमसन्तुष्टा विदित्वा भगवत्कला ऋषयभूषु एष विष्णोर्भगवत कला इयं च लक्ष्म्या पुरुषस्य अनपायिनी अयं तु प्रथमो राज्ञां पुमान् प्रतयिता यशः पृथुर्नाम महाराजो भविष्यति पृथुश्रवाः इयं च सुधती देवी गुणभूषणभूषण अर्चिर्नामवरारोहो प्रतुमेवावरुन्धती एष साक्षात् हरे रंसो जातो लोकरि रक्षया इयं च तत्परा हि श्रीरनुजज्ञेन प्रशंसन्ति स्मथं विभ्रा गन्धर्वप्रवराजगुः मुमुक्षु सुमनोधारात् सित्ता नृत्यन्ति स्वस्त्रियः सङ्कतुर्यं तत्र सर्ववुभा जग्मोर्देवर्षि पितॄणां गणाः ब्रह्मा जगद्गुरुर्देवैः सखाश्रुत्य सुरेश्वरैः वैन्यस्य दक्षिणे हस्ते धायोरविन्दं च तं वै मेने हरे चक्रं हंससः परमेष्टिनः तस्याभिषेक आरब्धो ब्रह्मणैर्ब्रह्मवाधिबेर् आभिषेचनिकान् यस्मै आजह्रुस्सर्वतो जनाः सरित् समुद्रा गिरयो नागा कावकगा मृगाः दौक्षिति सर्वभूतानि समाजकृपायनम् सोभिक्षथो महाराज सुवासाशाद्वलङ्कृतः पत्न्यार्षिशलङ्कृतय विरजेन्द्रिनिरिवापरः तस्मै जहारधनदो हैमं वीरवरासनं वरुणः सलिलस्रावम् आतपत्रं ससिप्रभं वायुश्च वालव्यजेन धर्मकीर्तिमयीं स्रजम् इन्द्रक्रीटमुत् भारतीहारमुत्तमम् हरिः सुदर्शनं चक्रं तत्पन्यव्याहतां श्रियं दशश्चन्द्रमसिंरुद्ध सतश्चन्द्रं तथाम्बिका सोमोऽमृतमयानश्वान् त्वष्टारूपाश्रयं रतम् अग्निराजगभं चापं सूर्योरश्मिमयानिषोन् भूपादुके योगमय्यौ द्यौ नाट्यं सुगीतं च केचराः ऋषयश्चाशिषक्स्रः सङ्कमात्मजं सिन्धवः पर्वता नद्यो रथवीतेर्महात्मनः सूतोतमागतो बन्धी तं स्तोतुम् उपतस्थिरे स्वाकां स्तनाभिप्रेद्य पृथुर्वं य प्रथा भवान् मेघनिर्ह्राधयावाच प्रहसङ्गिधमब्रवीत् प्रतुर्वाच भोः सूत हेमागतसौम्यवन्धिन् लोके धुना स्पष्ट गुणस्य मे स्यात् किमाश्रयो मे स्तव तस्मात् परोक्षे स्म तु वसृधान्यलं करिष्यतश्रोत्रापीच्छवाचः सत्युत्तमश्लोकगुणानुवादे जुगुप्सितं न सभ्याः मगद्गुणामात्मनि कर्तुमी चख स्थावयते सतोऽपि तेषा भविष्यन्निति विप्रलब्धो जनावः सन् कुमतिर्नवेध प्रभवो हि आत्मन श्रोत्रम् विश्रुताः श्रीमन्त पौरष्वा विगर् व्यय तोधा बरीम भी कर्म भी कथमा घापयिष्याम श्रीमदभागवते महापुराणे चतुर्थस्कते पृथुचर पंचदश्या सर्वत्र गोपिका जीवनस्मरणं गोविन्द गो सद्गुरु सद्गुरुमहराज के जय